परावागे तत्र पशू न भवति य अग्निमुद्वासयते पञ्चकपालः पुरोणा च भवति पान्तो यज्ञः पाङ्गा पशवो यज्ञमेव पशूनपरुन्धे वीरहा वानाय वाना अग्निमुद्वासयते न वा एकस्य ब्राह्मणार्ताय पुरान्नभक्षन् पञ्च यार्जानुवाक्या भवन्ति पान्तो यज्ञः पान्तः पुरुषो देवानेव ैरन्य याग्निम् पुनराधत्ते सदाक्षरा भवन्ति सदायुः पुरुषश्चेन्द्रिये प्रतिष्ठति यद्वाग्नि भागते यन्निकामयमानो यदा सर्वं भवति सैवाश्रद्ध्यसंवाये तस्य घेवा सृजते यममुद्वासयते सवाचकुं सकं दृष्टान् नियमान् भवन्ति परा भावात्यङ्करा तादृगैव्यम् निराह यथा पावम् वसुविधान प्रकाशञ्जिकमिषदि तादृगैव विभक्तिमुक्त्वा प्रयाजै नैव नैति यजमान पुरोणाच पशव येते यदपि पुरोणा समेते ज्यो त्यजमानमेव भयः पश्य परिगृह्णाय च तयजः सम्भृत सम्भार नित्या सम्भार संभृत्यादेव सम्भारा कर्तव्यं यज यज्ञिणा पुनरस्योतं भासः पुनरच्छान् राधेयस्य समर्ध्ये सप्त ते अग्ने समिधः सप्त जिह्वा इत्यग्नियत्रयत्रैवास्यन्येवै नम वरुन्धेवे लावा एतदेवानांद्वासयते तस्य वरुण एवं नयादाग्निवार्णमेपादशगपा नेश्चास्य मया तौ भागधेयेन र्चधेयमानः भोमिर्भोम्नाभ्यौर्वरिणान्तरिक्षम् महित्वा देव्यदि देव्यमन्नादमन्नाध्यायाधे आयङ्गः प्रस्थिरक्रमेत सनन्मातरम् पुनः नितरञ्जप्रयम् स्वः किम् श्रद्धामयिराजनिवापदङ्गाजशिश्रिये त्यागवाग्निभिः अस्य प्राणातपानत्यन्तश्च विवचना यक्षन्म यः सुवः जर्ध्वः परमपमन्युनायदवर्त्या सुकल्पमखेतस्तव पुनस्पद्वीपयामसि ये मन्यपराप्तस्य पृथिवे मनुदध्वजे आवेदा जिभदामाज्यम् विच्छन्न यज्ञमम् दधातो गृहस्पजस्तमन्ना विश्वे देवायमादयन्ता सप्तदेशः सप्तजिह्वा सप्त ऋषयः सप्तधामप्रियाणि सप्त सप्तधात्वा यजन्ति सप्तयो नेरापुणस्माभितेन पुनरुर्जानिवर्तस्व पुनरग्रयुषायुषा पुनरन्नः पाहि विश्वतः सैर्यानिवर्तस्वा ज्ञेबिम्बस्पधारया विश्वप्स्य विश्वदस्पदे कस्सै कस्तु लैकस्तै महादित्या आद्यञ्जुषानाभियन्त चैतस्य कैतस्तु चैतस्ते महादित्या आर्यजुषाणाभियन्त विव स्वाकम् अद्य च देव ज्योतिष्ठ महादित्या आर्यजुषाणाभियन्तो भूमिर्भोम्नाद्योर्वहिणेत्याः शिशैवे न माधत्ते सर्पा वेदेर्यन्तो मन्य सर्गे नेयो मन्त्रमपश्यत्ततो वेदे जेर्णास्तनुरपार्गार्गत्यमाददादि पुनर्नवमेवेन मजनम् कृत्वा धत्ते थ्वूतमेव पृथिवे मन्नाद्यन्नपानमत्सैतम् मन्त्रमपश्यत् ततो वेतामन्ना व्यपानमद्यत् सर्पराज्ञा ऋग्यर्गायगपत्यमादधाद्यस्यावरुध्या अथ अस्यामेवेन प्रतिष्ठितमाधत्ते यत्त्वा क्रुद्धः परो वयेः पन्मृत एव स्मैत पुनस्तो देवयामचेत्याः समिन्धेवेण यच्च मन्यपरो तस्येत्याः देवताभिरेवेण ्रह्म वै देवानां बृहस्पतिर्ब्रह्मणैव यज्ञकं सन्दधाति विच्छिन्नं यज्ञकं दधात्यै विश्वे देवाय समादयन्तामित्याह सन्तत्यैव यज्ञं देवेभ्यो सप्तते अग्ने समिधः सप्त जिह्वा इत्याह सप्त सप्त स्तारेवाबन्धे पुनरोर्जात हरयेजो योर्जादय्या च भैरः परि गृह्णात्यादित्या वा अस्मान् लोकादमन् लोकमायन्ते युष्मल्लोक्यदृश्यन्त इमं लोकम् पुनरभ्य वेत् काग्नि माधारीतास्ता क्रुवन्ते समर्च लोकमाचनियः पराचीनम् पुनराधेयादग्निमाेताञ्जुषाद्यामेवादित्यारिद्धिमाध्वन्तामेवध्नोहि वयपयन्तो अध्वरम् मन्त्रम् वोदे माग्नये आरे अस्मे च शृण्वते अस्य प्रक्राममद्युतकम् शुक्रम् दुक्रे अक्रयः वयः सह स्वसामृशिम् अग्रे मोर्धादिवक्कः पृथिव्या अयम् अपागम् जन्मते अयमिह प्रथमो धा यथाने चरित्रम् यभुवम् विषे विषे उभावामिन्द्राग्ने आहुवद्भ्या उभातस्य भावादयध्यैः उभादाताभिषागम् रगेनामुभावाजस्य साते हुवे अयम् तेयोनिर्वियो जातो अरोचथा पञ्चानन्नग्नारोहासा नो वर्ध्यायम् अग्नायोगुंसि अग्ना पवसः सुवार्जभिषञ्चनः आरेपाधस्वदुच्छुना अग्नेपवः स्वस्व वा अस्मे वर्जः सुवीर्यम् तोषगम् लयम् मयि अग्ने पावकरोचिषा मन्द्रया देवजिह्वया आदेवायलक्षियक्षिचनः पावकजीलिवाग्नेदेवाग्निः उपयज्ञकम् हविश्च नः अग्नश्रुचम्रतरमस्य चे प्रश्विचः कविः श्रीरोचताहुरः उदरग्ने तव शुक्राभ्याजन्त वर्जोलेगक्ष आयर्ता अग्नेऽस्यायन्मे देहि वर्चोदा अग्ने वर्चो मे देहि तनोपा अग्नेस्तनवम् पा मे पाक्यग्नेयन्मे तनुवा होनन्दन्महापणचित्रावध स्वस्ति च पारमशीयन्धानास्त्वाश्रयम् धीमन्तश्चि धीमहि वयस्पन्द वयस्कृत यतस्पन्द यस्कृतया सोऽभ्यम् अग्ने सपद्रदम्भनम् वर्षिष्ठे अधिनाके स्वमग्नेशौर्यस्य वर्चसा गथाः समृजेनाविस्तुतेन म्भस्ताम्भो व भक्षी यमहस्तमहो व भक्षी यतःस्तो वक्षीयोर्जस्थोर्जम्ब भक्षी यदेव देशमध्वमस्मिन् लोकेऽस्मिन् गोष्ठेस्मिन् क्षयेऽस्मिन् यो नाभियैव विश्वरूपे रामोर्जा विषागौ भक्ते नाराजस्पोषेण रहस्तपोषम् उपरत्वाग्ने दोषा दो वस्तर्धिया वयम् न मो भरन्त हेऽवसि राजन्तमध्वराणा सोपामुदस्यती दिविम् बद्धमानग्निस्वेदमे सितेवसो नेग्ने सोपायनो भवस्वानस्वस्तये अग्ने त्वन्नो अन्तमः उतत्राता शिवो भव रोक्षः सन्दासोजिष्ठनीदिवः सुम्नाय नूनमे महेशिभ्यः वश्रवाः रक्षा नक्षद्यमत्तमारयिन्द्राः ओर्जामः पश्याम्योर्जामापश्यत रागस्पोषे नमः पश्यामि रागस्पोषेण मा पश्यते नामाविशदे रामदः सहस्रवोषम् वः पुष्यासम् महि भोराय श्रयन्ता तत्र पितृमरेऽन्य भर्गो देवस्य धीमहि नः प्रचोदयात् सोमानग्णम् कुमहे ब्रह्मणस्पते कक्षीवन्दय्यौषिजम् कदाचनस्तरेलशिरेन्द्रसश्चिदाशुषे उपोपेन्नुमघमन् भोगिन्नु देदानम् देवस्य मृच्यते दे। परित्वाग्नेपुरम् वयम् विप्रगुम् सहस्य धीमहि जगन्दिरेभम् गुरावदः अग्ने गृहपदे सु गृहपदान्मया गृहपदिना भूयासकम् सुगृहमया त्वम् गृहपदिना भूयाः शतकम् किमास्तपासि समासा च पन्तदे ज्योतिष्पदे तापासि समासा चमुष्मे ज्योतिष्पदे यज्ञो वा यो सामो वः प्रजन्तो अध्वरमित्याह स्तोममेवास्मै नक्तिपेत्याह प्रजा वै पशवौ वेमम् लोकम् प्रजामेव पशोणिमम् लोकमु वैत्यस्य प्रमनुर्जितमित्याह सुवर्गो वै लोकः प्रत्रस्तु वर्गमेव लोकम् देव लोका देव यस्य लोके प्रतिष्ठत्य भातृभेत्याह मुख्यमेवेण्युभावामिन्द्राग्नी आहुवध्यायित्याहौ जो बलमेवा वरुन्धे यन्द्रे यो निजलित्याह पशवो वे पशो देवावरुन्ध्रे षड्भिरुपतिष्ठते षड्वारता प्रतिष्ठति षड्भिरुत्वराभिरुपतिष्ठते द्वादश द्वादशमाधाः संवत्सरः संवत्सर एव प्रतिष्ठते यथा वे पुरुषो याहि संवत्सरस्य परस्ताग्निरुपतिष्ठते पुनर्नवमेवेनलङ्करोनात्येवोपतिष्ठते योग एव शेषोपतिष्ठते नव एव शेषोपतिष्ठते या शेषोपदिष्ट पापी श्रेयसाहृत्य नमश्चरितादृगेव न्वाोहय दिवा वेतदाह चित्रावधो स्वस्ति च बालमशीयत्याहराद्वे चित्रावसुरव्यष्ट्यैवा वेतस्यै पुरा प्राहवेष्टिमे वावरुन्ध इन्धाना स्वाशि मात्याहताय पुरक्षतेन्द्रियाय शैवन्द्रिय प्रचलच्छत्ये वेशोर्म्ये कर्मकावत्येतया स्मै देव र्भागस्कृतया समिष मादशादिवज्रमेवेतच्छलग्ने जयमानाभ्रातु्याय प्रहरतिस्कृत्या अथम्बा न पुंसन्तमग्ने सौर्यस्य वज्रसागसावित्याहेतत्वमधीतमहं भूयासमिति वाने सूर्यवच्चासेत्याषमेवेतामाशासे सम्पश्यामि प्रजा अहमित्या मया वन्दनेव ग्राम्या वशवस्त्राणेवावरुन्धस्ताम्भ भक्षीयेभोक्येतामहस्तमहो वा भक्षीयत्याह महोक्येतासहस्तसहो वा भक्षीयत्यासहोरावोजस्थोर्जम् वा भक्षीयत्याहोजोश्चेतारेवतीरमध्वमित्याह वशभो वैरेव देव वशोरेवात्मन् प्रमयतेव स्थेतोमापघातेत्याह ध्रुवा देवे आनपगा कुरुत इष्टखचित्वा अन्याः पशुजिदन्यः सगम्भिगाधि विश्वरूपेभत्युपैवे धत्तेन कुरुत प्रमायेषोऽस्माल्लोकाच्यवधेयाहवनीयमुपतिष्ठते कालिसमत्यमुपतिष्ठतेऽस्मिन्नेव लोके प्रतिष्ठत्यथो कालिसमत्यादेव निन्ध्वे गायत्रेभिरुपतिष्ठते ो वेगायत्री ते जगेवा त्वं भक्ते छो यदेतन्त्रत्ये गारिकमत्यं वा विवाद वीरा प्रजायन्ते जग एवं विद्वान् विवदाभ्यर्गारिकमत्यमुपतिष्ठत आस्य वीरो जागत स्वरणमित्याह सोम वेदमेवावन्धे ब्रह्मणस्पथयित्याह ब्रह्मवत्यन्धे कदा जनस्तरे रसीत्यापतिष्ठते परित्वाग्ने पुरं वयमित्याह परिधिमेवेदं परिदधायाग्नेग्रहपलित्याह यथा हेमन् वेददाः पुत्रस्य नाम ग्रन्हाय नादमेवेन करोति तामासि समाशासे तन्तभे ज्योतिष्मदे ब्रोजाद्यस्य पुत्रो जातस्य तेजस्पेवास्य ब्रह्म वर्तते पुत्रो जायते तामासि समाशासेमुष्मेज्योजष्म देविनि ब्रोजाद्यस्य पुत्रो जातस्य तेजगेवास्मिन् ब्रह्म वर्ततम् दधाति ैवायं प्रति त्रेदस्य प्राधिकृतं प्रजायते यावक्षो वेदस्य त्वष्टा रूपाणि विघरो प्रजायत एकवेदैव्यस्तयो भग्वीभिरुपतिष्ठते तेतस देवरूपाणि विकरोति सत्रैव जायते स्वति यं विद्वाग्निमुपतिष्ठते हेवानामासे द्रात्रिरसुरान्तेऽसुरा यद्देवानाम् वित्तं वेद्यमासे सहरात्रिंप्राविशन्ते देवाहीनामन्यन्त पश्यन्ना ज्ञेयी रात्रिणा ज्ञेयाः पशव शिवमेवाग्निग्रस्तवासरस्तुतः पशोन् पुनर्गास्यतीतिमस्तु वा पशोन्निराज्रे देवाः पशो या मागम् अकुर्वदय एवं विद्वानग्निमुपतिष्ठदेव शुभान् भवत्यादित्यो वा अस्मान् लोकादमल्लोकम् यत्सामल्लोकम् गत्वा पुनरिमं लोकमभ्यर्थ्यायत्स इमल्लोकमागत्य मृत्यो नृत्युसंयम् लोकः सोमन्यवाग्ने समा स्तुतस्तु वर्गम् लोकं गमयिष्यतीति सोऽ स येनास्तुतस्तु वर्गम् लोकमगमयद्य एवं विद्वानग्निमुपतिष्ठते तु वर्गमेव रोहते उपतिष्ठते यथा खलुवेरोढः कामयते तथा करोति का नग्नमुपतिष्ठतेन प्रातश्च गृहे नजानि सृज्यन्ते सहस्रे जागश्च पापीजागश्चाधादे ज्योतिर्वा अग्निस्तमोदाग्नमुपतिष्ठते ज्योतिषैव तवत्युपश्चेजोऽग्ने त्याभर्मनुष्या जे अन्वै जोहरः राजस्यार्थै नञ्याचजयन् वै तमुपाक्षत्यसरो देवानः नेरापतिष्ठले तस्मादुपस्थेय प्रजापय पशोरथ जलते वृष्टाहोरात्र प्राविषन्दान्छन्दोभिरन्वविन्द्यन्दाभिरुपतिष्ठले स्वमेव तत्र जाम्यश्चेत्याहुर्यो हर यः पलाङ्गविश्वम् प्रजया पशुफिरेति गवार्यिवोपतिष्ठयनैलम् प्रत्योषयिन विश्वम् प्रजया पशुभिरेति मम नाम प्रथमम् जातवेदः पिता माता जलधर्यदग्रेभिः पुनलापदैतोण्यग्रे नव जातवे दोभाससे इव विवसा नो आयुषे त्वम् जीवसे वैङ्थम् विपलितनस्ते नमोग्नये प्रतिनिध्याय नमो ना नाशिष्टाय न ना सम्राजे अषाढो आग्निर्बेहद्वया विश्वजत्सहम् जश्रेष्ठो गन्धर्वः युषाभङ्गौ भक्तेन सुविते माधाः अयमद्य श्रेष्ठतमोजम् भगवत्तमोजगुण्डः स्रसा तमः अस्मास्तु सुवेर्यम् मनोज्योतर्विषदामाज्यम् विच्छन्न यज्ञकम् तमिव दधातो या निष्ठा विषदा निम्बृतश्च ताः सन्दधामि हविषा धृतेन पयस्पतेरुधाम् पयः अपारम्पयतोपयस्ते नमामि अग्ने ब्रतम् चरिष्यामि रक्षयम् तन्मेलाभ्यताम् अग्निगुम्भोतारम् भवे देवानि विद्यया निगजा नमामहे आयन्तु देवाः सुमनस्यमाना विजन्तु देवा हविषो मे अस्य अष्ट्वायिन क्वितत्वायिनक्त्वयानि घर्मे कपालानिव जिन्वन्ति वेचसः ओष्णस्तान्यव ब्रज इन्द्रवायोजताम् अभिन्नो धर्मो जीरदानुयथास्तदगम् पुनः यत्मापेभ्यः परिचयश्च धर्मे त्रयस्त्रियम् शक्तम् तो यमन् देहाय विश्वाः धर्म देवागुमप्ये वैश्वानवनभूत्या प्रयादुपरावतः अग्निमुख्यैश्वानवृतस्य ज्योतिहस्पतिम् अशस्वम् धर्म मेमहे जायताग् पृष्ठो दिवि पृष्ठो आग्ने पृथिव्याम् पृष्ठ विश्वावोषधीरावेद वेश्वानस्य रहता पृष्ठो आग्न्यस्त नापादुनक्तम् भुवना जातोयदग्ने भुवनाव्यक्ष्य पशुन्न गोपालिर्यः परिध्वा वैश्वानरब्रह्मणेविन्दगातु योऽयम् पादः स्वस्तिभिस्तदानः त्वमग्नेशोचि चासोऽशि चाधारोदशी अरुणाजायमानः त्वम् देवागुमविधस्तेन वैश्वानरजातवेदोत्वा अस्माकमग्ने मघवत्सुधानाम्यक्षत्रीर्यम् वयम् जयमशतिरम् सहस्रिणम् वैश्वानरवाजमग्नेत मोतिभिः वैश्वानरस्य भगवतो श्याम राजाहि कम्भुवनामभि श्री जातोऽष्टमृगम् विषर्धे वैश्वारोगेण अवतेवयज्ञे जन्ने अजिदये स्यामा। यमादित्यवानागसो अधिश्याम्राकार्यम् ज्यष्णोः सुरभिनमुखाकरप्रणायो आदधिक्राश्रवता पञ्चकृष्टे सौर्यम ज्योतिषापस्तदाश्चाकुंसि अग्रन्मोर्धाभुवः मरुतो यद्धवो जिवस्वम् मायन्तो हवामहे आतो न उपहन्तना यावः शर्म शशमाना यसन्ति त्रिधातो निदातु चेच्छताभि आस्पभ्यन्तानि मलतो सुवीरम् अरिजन्मोक्ष्यत्वःशर्म यच्छतु अरिजः पात्रगृह् महे मोदरगुम् सुप्रदानाक्षत्रामजन्त्येव नोजेकम् सुधर्मा नवदिदेकम् सुप्रणीतिम् सुग्रामाणम् पृथिवेन्द्याममे हसगम् सुषर्माणमदिजगम् स्वग्रहणीति नामज्ञस्व्रामनागसमस्रवन्ति मारुहे मास्तरेमागम् सुराममारुभगम् शता यत्रागम् शतस्फ्याम् अच्छद्राम् पारयिष्णम् ओ प्रजामायोद्धनम् च बृहस्पचप्रचोदो यजमानयमारिषिलमस्याध्यक्षमसि हरिषि वैश्वामरम् वैषदेवमुद्बोधम् सहस्पादे यदः सहस्वसहस्वृतम् यतः सहस्रमेन्द्र्यमाजन्वाद्यस्याजनशक्त्यस्यतिरत्याय त्वमधित्येन त्वाभिकारयामि तस्य देव क्षीय पञ्चानाम् त्वावातानायन्द्राय धत्राय गृह्णामिवञ्जानाम् त्वन्द्राय धत्राय गृह्णामिवञ्जानाम् त्वायन्द्राय धर्त्राय गृह्णामिवञ्जानाम् त्वा पञ्च जनाना यन्द्राय धत्रा न्त्राय गृह्णामि जिरस्य मन्त्राय धत्राय गृह्णामि ब्रह्मस्वारच यन्त्राय धत्राय गृह्णामि क्षत्रस्य त्वोदस यन्त्राय धत्राय गृह्णामि विजेत्वा यन्त्राय धत्राय गृह्णामि सुनेर्याय त्वा गृह्णामि सुप्रधास्ताय त्वाय गृह्णामि रायस्तो त्वा गृह्णामि यजमानस्य देवा देवताभ्यो गृह्णामि गाय त्वा गृह्णामि ध्रुवोध्रुवो हगम् स जातेजभूयासन्धीरश्चेत्तामसगुग्रा शुग्रोहगम् स जातेजभूयासमुग्रश्च ताव विभोरस्य विभो रहम् स जातेजभूयासम विभोश्चेत्तामसगद्वे ब्रह्मनाथेव्ये नव्यायास्मै वोढवेयातवेदः पा तु प्रजल सुीराज्योऽपलिहृतो भयन्ते यन्मे अज्ञे अस्य यज्ञश्रेष्वाद्य स्कन्धादाज्ञश्चोतविष्मा तेन हन्विषमर्थम् धर्मराजमैनन्दधामिनिर्वृत्या भोर्भवस्तु समलक्षुष्माग्ने निजमाना ये धिरिजुष्माभिधासते ग्ने देवे समन्विद्धमन्त्रेष्वाहत्यस्य देहो धर्मोर्धन्नाधिघर्मरायस्त्व प्रजाय सुमनो जिप्राजावत्यम् मनसा मा भूतेना विषवागस्यैन्द्रेधवध्यक्षै वाचा मे प्रियेणा विशव सन्तपदूनाम् प्रीणामि समा प्रीतः प्रीणादु ग्रेष्टपदूनां प्रीणामि समा प्रेतः प्रीणादु षादूनाम् प्रेणामि तामा प्रेता प्रेणन्तु शरद प्रीता प्रेणातु हेमन्तशिलामृतोनाम् प्रेणामितौ मा प्रीतौ प्रेणेतामग्नेशो मया रहन्दैव यज्ञया चक्षुष्मान् भोजादमग्ने रहन् देव यज्ञयान्नाद भोयाधन्द्र भोजाद मन्द हैलमग्नेशमय रहन् दे वयज्ञया वृत्रः भोजासमिन्द्राद्विजाङ्गव यजयैन्द्रिया व्यह्नातो भोजासमिन्द्रस्याहङ्गेव यजयैन्द्रिया दे भोजासं महेन्द्रस्याहन्देव यज्ञया देवानं महिमानङ्गमेयमग्ने स्पष्टकृतोऽहङ्गेव यज्ञया युष्मान यज्ञ प्रतिष्ठाङ्गमेयम् ज्ञं मातुष्टात्मादविनाय श्रीमान् भ्रान्मनोर्षानिष्ट्यन्ते श्रीयोपभूतौवन्ते श्रीयरामे रत्याशीरस्य भूजादय छयं यज्ञो दिवं रोहति यज्ञो दिवं गच्छतु यो देवयानः पन्थास्तेन यज्ञो देवागम्ये तस्मास्मिन्द्र इन्द्रियन्द तस्मान् राजभूत यज्ञाश्चा नो चुष्टिन्द्रैमे माज्यम् विच्छिन्न धातोमन्दा विश्वे देवानि समादयन्ता प्रथमिन्वस्वृतो मेमाक्षायुर्वतो मे मोपदयार्भावोऽस्योजस्वान्वजस्वान् प्राणमानो मे बाह्यमानव्यानो मे बाह्युदान व्यानो मे बाह्यक्षितोस्य क्षित्यै त्वामा मे षष्ठामुत्रामुष्मिन्लोके ोऽहं देव यज्ञया प्रजावान् भूयासन्न रागुन्दस्याहं देव यज्ञया पशुभान् भूयाजमग्नेष्कृतोहन्देव यज्ञया युष्मान् यज्ञेन पृष्ठाङ्गमेजमग्नेरहमुद्धिमनोद्य रघुन्दोमस्याहमुद्रिमनाद्यमग्ने रहमुद्रिमनोजमग्ने शोमयो रहवद्विमनोज रविन्द्राग्न्यो रहवद्विमनो जवीन्द्र स्याः बुद्धिमनोद्येषम् महेन्द्रस्याः बुद्धिम्येषम् वाजश्च मा सपत्पादिग्राभेणाधरागुम् अगःग्राभम् च निग्राभम् च ब्रह्मदेवाभिधन् अथा सपत्त्वानिन्द्राग्ने ेमात्मनाशितोहकामा इन्द्रवन्दो मलामहेभुक्षेमहे प्रजामिषम् भोषेणत्वाज्ञर्देवता गमयद्भ्यान्द्वेन्द्रो देवताः गमयत्ते दशेनत्वा सूर्यो देवताः गमयदृविमुन्त्याव्यस्मे काम्याय परिचर्तनायस्ता तस्मादुद्रविणयश्च भद्रम् प्रणोः ब्रूतान् भागान् देवतासो दे हन् देव यज्ञया यज्ञेन प्रतिष्ठाङ्गमे जगुम् सोमस्याहन्देव यज्ञया सुहन्देव यज्ञयासूनागम् देवानाम् पत्तेरग्यर्ति यज्ञस्य मिथवन्तयो रहन् देव यज्ञया मिथुनेन प्रभूयासम् वेतो रायस्पोटकम् सहस्रिणम् वेदो ददातु वाजिनम् आप्यायताम् ध्रुवाघृतेन यज्ञम् यज्ञम् प्रतिदेवयद्भ्यः सूर्याया ऊधौ दित्या स्वीयज्ञे प्रजापदय विधान्नाम लोकस्तस्म्य गत्वा दधामि ने भूया सर्वमसि सर्वम् मे भूया ओम् नमसि पूर्णम् मे भोजा अक्षिमधि मामे प्राच्याम् दिशि देवादिचो मार्जयन्ताम् दक्षिणायाम् दिशि मासा पितवा मार्जयन्ताम् प्रदेच्याम् पशवो यज्ञपदर्मार्जयन्तां विष्णा क्रमादिभागायत्रेण छन्दसा त्रिवे न विक्रमेण निर्भक्तः स्वयं दृष्मा विष्ण क्रमास्यभिषष्टिहान्दसान्तरिक्षमविक्रमेण निर्भक्तस्य विष्ण क्रमो यतो न्ता जागते नशन्तसाधिक्रमेण निर्भक्दर्शयन् दृष्ट्वा विष्टा क्रमोदिधत्रो यतो हन्तानुष्ठु नछन्तसाधिशो न विक्रमेण अगन्मसुभः सुवरगन्म सन्दृशस्यै माचित् श्रियत्येतमस्तस्मै ते मा वृक्षोरस्तेष्ठरस्मे नामा यद्धा अस्यायम्मेधे हिमच्चोधा अधिमच्चमयधे हीतमहमोम् भ्रातृव्यमाभ्यो दिग्भ्यो वास्त्ये दिवो वास्मादन्तरक्षादस्ते पृथिव्या अस्मादङ्गाध्यान्निर्भया विनिर्भक्तस्ययम् विष्मः ञ्जा भो मयेन्द्रे मावत मन्वावर्तेतमगम् प्रजासम्मया प्रजासमहम् रायस्पोषेण राजस्पोषः समिद्धो अग्ने मे दीति धाते अग्ने देत्यान् भूया समग्ना योगम् शिपवसा सुनः आर्यपाधस्प निश्चुना स्वस्तपस्नेपत्य सुरेयम् तथापाठकम् रयम् मये अर्गे गृहपदे सुगृहपतिरहन्तया गृहपतिना भूयास किम् सुगृहैर्मया त्वम् गृहपतिना भूयाः शतकम् हिमास्तामासि चमासा देवन्त वे ज्योतिष्पदे शमासा जष्मे ज्योतिष्पदे ग्रस्त्वारिणग्निषत्ताविमुत्रज्ञेः प्रतपदे प्रथमचारिषन्तन्वे राशिज्ञा बभो वसा बभूवस प्रजज्ञेतवावधे धिपजर्बभूत अस्माकम् अधिपते भोमार्गम् अग्नेऽभिमागम् अश्वे यज्ञानिवत्सकाशमिरः प्रदृश्य इडा मार्गम् येडा अधुर प्रजालादयः प्रथबुद्धभावान् यथा वेशमृत सोमा एवं वा एते शमृतयज्ञानिर्दर्श पूर्णमासोकस्य वाह देवा यज्ञमागच्छन्ति कस्य प्राणबहूना यजमानानाय वे देवता पूर्वः परिगृह्णाश्व भूते यजतमेतद्वै देवानाभायतनो वाशोनाम्भवत्यो मनुष्यामाः यः कृषणाभ ह्णायश्वदेवायत न देवता परिग्रह्णादिताश्व भूत ये मेभ्या व्रतप ब्राह्मण प्रतभमुपैश्चण्डो यादग् पदञ्जरिष्यामे देवा प्रतपदिस्तस्मामेव प्रतिप्रोच्य व्रतमालभज परिगजा वो नमाजय व्रतमुपैर्यवच्चैरमाभास्यायामे तत् ध्येतयो रातनमुपस्त्येद्याः पूर्वश्चाविरपरस्तेत्याहुर्मश्चाहिन्वा उपस्त्यर्न यक्षन्ति किमु देवा येषान्न वासानस्मिन्शो यक्षमाणे देवतापसन्ति एवं हेतानग्यमवस्त्रिणा यजमानेन ग्राम्याश्च वसवोऽध्या आरण्याश्चेत्याहुल्य ग्राम्यानुवसति रेण ग्राम्यानवरन्ध्य स्यास्नादितेरण्यान स्वानुभवधे कृनानेन्द्रियं वारण्येन्द्रियमेवन्धक्ते घटनाश्वानुभवत् क्षोधकस्यामन्ये ताप स्नादिने वा क्षोधकाद्रः वशोनभिमन्य वे यज्ञाः क्षुत् खलु वै मनश्चादम् योगनाः स्वानुभवस देवद्र्या